भागवत श्रीमद्भागवत् महापुराणं दसंस्कन्धम् अथैकचत्वारिंशोऽध्यायः श्रीकृष्णकामथुराजि मे प्रवेश श्रीशोकुवाच तु वतस्तस्य भगवान् दर्शयित्वा जले वपुः भूयसमाहरत्कृष्णो नटो नाट्यमिवात्मनः सोऽपि चान्तर्हितं व्यक्ष्य जलादुन्मज्ज सत्वरः कृत्वा चावश्यकं सर्वं विस्मितो रथमागमन् तमप्रेक्षदृशीकेश किं ते दृष्टमिवाद्भुतं भूमौ वियति तोय वा तथा त्वां लक्ष्यामहे अक्रुर्वाच अद्भुतानि ह्ययामन्ते भूमौ वियति वा जले दृष्टं विपश्यतः यत्राद्भुतानि सर्वाणि भूमौ यति वा जले तं त्वानुपश्यतो ब्रह्मण् किं मे दृष्टमिहाद्भुतम् इत्युक्त्वा चोदयामास चन्दनं गान्दिनीसुतः मथुरामणि कृष्णं चैव दिनाथे मार्गे ग्रामजनाराजन् तत्र तत्रोपसङ्गताः दशदेव प्रीता दृष्टिं न तावद्ब्रजौकसन्त्र नन्दगोपादयो गृतः पुरोपवनमासाद्य प्रतीक्षन्तोऽवति स्थिरे तान् समेत्याह भगवान् क्रूरं जगदीश्वरः गृहीत्वा पाणिना पाणिं प्रश्युतं प्रहसन्निव भवान् प्रविशतामग्रे सह यानपुरीं गृहं वयं तिहावमुच्याथ ततो दक्ष्यामहे पुरीम् अक्रूरूवाच नाहं भवद्भ्यां रहित प्रवेक्षे मथुरां प्रभो त्यक्तुं नार्हसि नाथ भक्तं ते भक्तवश्चर आगच्छयाम गेहान् न शनाथान् कुर्वथोऽक्षज शहाग्रजश गोपालैः सुहृद्भ्यश्च सुहृत्तम पुलेः पादरजसा गृहान् गृहिमेधिनाम् यच्छौचेनानुतृप्यन्ते पितृसाज्ञराः अविनिद्याङ्घ्रीं युगलमाशीषलोक्यो बलिर्महान् ऐश्वर्यमतुलं लेभे गतिं चैकान्तिनां तुयाम् आपतेऽस्य ग्रं ध्यवने जन्यश्रीलोकान् सूचयो पुनन् श्रीसाधत्या सर्वस्वर्याता सुगरात्मजाः ेवदेव जगन्नाथ पुण्यश्रवणकीर्तन यदुत्तमोत्तमश्लोक नारायण नमोऽस्तु श्रीभगवानुवाच आयासे भवतो गेहमम् महमार्यसमुन्वितः यदुच्चक्र द्रुहं हृत्वा वितरिष्ये स्वेत्रियं श्रीशोकुवाच देवमुक्तो भगवता सु क्रूरो विमना परिं प्रविष्ट किंसाय कर्मावेद्य गृहं ययौ अथापराह्णे भगवान् कृष्णशङ्कर्षणान्वितः मथुरां प्राविशद्गोपैदि दिक्षु परिवारितः ददर्शतां स्फाटगतुङ्गगोपुरद्वारां बृहद्धेव कपाटतोरणां ताम्रारकोष्ठां परिखादुरासदा मुद्यानरम्योपवनोपशोभितां सौवर्णशृङ्गाटकहरुणनिष्कुटैर् सेळीसभाभिर्भवनैरुपस्कृतां वैदुर्यभद्रामलनीलविद्रुमैर्मुक्ता हरिविन्भिर्वीषुवेदिषु जुष्टेषुजालामुखरन्दकुट्टिमे स्वाषपारावतं बर्हिनादिताम् संसिक्तरथ्यापणं मार्गचत्वरां प्रकीर्णमाल्यां कृलां च तण्डुलाम् आपूर्णकुम्भैर्दीचन्दनोक्षितैः प्रसूनदीपावलिभिः सपल्लवैः सविन्दरम्भाक्रमुकैः सकेतुभिः स्वलङ्कृतद्वारगृहां चपट्टिकैः तां सम्प्रविष्टो वसुदेवनन्दनो मृतो वयस्यैर्नदेववर्त्मना द्रष्टुं समेयो त्वरिता पुरस्त्रियो हर्म्यार्चैवारुरुहूर्निपौत्सुकाशेन् विपर्यधृतवस्त्रभूषणां विस्मृत्य चैकं युगुले सुथा पराः कृतैकपत्रश्रवणैकनूपुरां नाङ्गाद्वितीयं तपरास्य लोचनम् अनन्त एका तदपास्य सोऽसवाम् अभ्यज्यमाना अकृतोपजन्मनाः अनस्नन्त एकास्तपं पास्य पुंसोऽसवाम् अभ्यज्यमाना अकृतोपम् अञ्जनाः स्वपत्न्युत्थाय ऋषब्मिश्वरं तृपायन्त्योर्भमहोप मातरः मनां मनांसितासामरविन्दलोचनप्रगल्भलीलाहसितावलोकनैः दहारमद्दविरुन्देन्द्रविक्रमो दिशां ददच्छ्रीरमणात्मनोत्सवं दिश्वामुहः श्रुतमनोन्द्रुतचेतसस्तं तत् तत्प्रेक्षणोऽस्मितसुतोक्षणलब्धमानाः आनन्दमृतिमुपगुह्य दिशात्मलब्धम् हि स त्वचों जहुरनन्तमरिन्दमाधिं प्रासादशिखरारूढा प्रत्युत्फुल्लमुखाम्बुजाः अभ्यवरसन् सौमनस्यै प्रमुदा बलकेशभौ दध्यक्षतै सोरपात्रैः सङ्गन्धैरभ्युपायनैः तावानचुरुन्नर्चुः प्रमुदा तत्र तद्विजातयः